अथर्वेदे द्वितीयाष्टके तृतीयोऽध्यायः ओ।, ओ वसो रुद्रा कुर्वन्तो वृथन्ता दशस्य तन्नो वृषणावभीष्टौ सस्राहद्रे प्राम् प्रयत्स्राथे अगवाभिरूति को वा अन्दाशत्सु विकृतमस्मेरेव तेः पुरन्धीः कामप्रेणे एव मनसाचरन्त युक्तो हयद्वाहन्तौ ग्र्याय पेरुर्मिमध्ये अर्णसोधायि वज्रः उपवामवशरणङ्गमेयं शूरो नाद्मपतयद्भिरेवैः उपस्तुतिरौ मामेधो दशदयश्चितो धाप्रयद्वाहम् बद्धस्म निखादतिक्षाम् न मामरन्नद्यो ओ मातृतमादासाय दीं सुसमुब्धमबाधोः शिरो यदस्यत्रैतनो वितक्षत्स्वयम् दास उरोऽंसावपिग्धा दीर्घतमा र्थञ यतीनाम् ब्रह्मा भवति सारथिः प्रत्यावाह यज्ञैः पृथिवीरतावृथा महीस्तुषे विदधेष् प्रचेतसा देवेभिर्ये देवपुत्रे सुदंसेर्थाधिया वार्याणि प्रभूषतः उत मन्ये पितुरद्रो मनो मातुर्महिस्वतमस्तद्धवीमभिः सुरेतसा पितरा भूमचक्रतुरुप्रजाया अमृतम्बरीमभिः ते सोनवस्वपसः सुदंसो सो महीजज्ञर्मातराः पूर्वचित्तये स्थातुश्च सत्यम् जगतश्च धर्मणि पुत्रस्य पाथः पदमद्वयाविनः ते मायिनो ममिरे सुप्रजेतसो जामीषयोमिथुना समोगसा नव्यम् नव्यन्तम् त्वमातम्बदे दिमि समुद्रे अन्तः कवयः सुधीतयाः तद्राधो अद्य सवितुर्वरेण्यम् वयम् देवस्य प्रसवे भनामहे अस्मभ्यम् द्यावापृथिवी सुचेतुरारयिन्धत्तम् वसुमन्तम् शतग्नम् ते हि द्यावापृथिवी विश्वशम्भुवरतापरीरजसोधारयत्कवी सुजन्मरीक्षणे अन्तरीयते देवो देवी धर्मणा सूर्यः शुचीः सा महिनी सश्च ताः पिता माता च भुवनानि रक्षतः सुदृष्टमेव पुष्ये एनरोदसी पिता यत्सीमभिरूपैरवासयत् स वह्निः पुत्रः पित्रोः पवित्रवान्पुनातिथीरो भुवनानि मायया धेनुम् च पृष्णिम् वृषभम् सुरेतसम् विश्वाः शुक्रम्बयो अस्य दुःखत अयम् देवानामपसामपस्तमो योजानरोदसि जा विश्वशम्भुवा वियो ममे रजसि शुक्रतूयजादरेभिःकम्भनेभिः समादृचे तेनो गृणाले महिनी महिश्रवाः क्षत्रम् द्या वापृथिवीधा सथो बृहत् येनाभिकृष्टेस्ततनामविश्वापनायमो यो अस्मे समिन्वतम् किमु श्रेष्ठः किं यविष्ठो न आजगङ्किमीयते दोत्या अङ्गद्य दोचिम न निन्दिमचमसंयो महाकुलोऽग्नेभ्रातृणरि भूतिमोदिम एकञ्चमसम् चतुरः कृणोद न तद्वो नायद्येवाकरिष्यथ साकम् देवैर्यज्ञासोपविष्यथ अग्निम् दूतम् प्रति यदब्रवीतनाश्वः कर्तो रथ उतेह कर्त्वा धेनुः उते कर्त्वा युवशा कर्त्वा द्वातारिभ्रातरनुवः कृत्वेमसि चक्रवाम् सर्ववस्तदपृच्छद यदा वाख्यच्चमसाम् चतुरः कृतानावित्कृष्टाज्ञास्वन्तर्न्यानजे हरामैनाङ्गित्कृष्टा यदब्रवीच्चमसं ये देववानमनिन्दिषुः अन्यानामानि कृण्वते सुते स चाम् अन्यैरेनाम् कन्या आनामभिस्फरत् इन्द्रो हरेः युजे अश्विनारथम् बृहस्पतिर्विश्वजत ऋभुरुविभावाजो देवाङ्गगच्छत स्वपशो जिज्ञयम् भागमयीतन निश्चर्मणो कामरिणीतधेतिभिर्याचरम् ता राजुवशा ताकोदन सौधन् वनाहस्वादश्वमतक्षतयुक्त्वा रथमुपदेवाङ्गयातन इदमुदकम् पिबतेत्यब्रवीदनेलम्बा आघा पिबतामुञ्जने जनम् सौधन् वनायदितन्नेपहर्यथ तृतीये एकासवनेवादयाद्भै आपो भूयिष्ठ इत्येको अब्रवीदग्निर्भोयिष्ठ इत्यन्यो अब्रवीत् अधर्यन्ते इम् बहुभ्यः प्रैको अब्रवीदृताबलन्तश्चमसाङ्गविंशत श्रोणामेक उदकङ्गामवाजति मांसमेकः पिंशति सूनयाभृतम् आनिमृतस्य कृते को अपाभरत् किं स्वित्पुत्रेभ्यः पितरा उपावतुः उद्वत्स्वस्मा कृणोतनातृणम् दिवत्स्वपस्व पश्यया नरः अगोस्तना सम्मेल्य यद्भुवनापर्यसर्पतक्वस्वित्तात्या पितरा व आसतुः अशपतयः करत्नम् व आददे यः प्राब्रवीत्प्रोतस्मा अब्रवीतन सुषुप्माम् सर्ववस्तदपृच्छता गोह्यक इदम् नो अबोबुधत् स्वारम् वस्तो बोधरितारमब्रवीत्संवत्सर इदमद्याव्यक्षत दिवाया मूम्यारय बा अंतरक्षेण याद वरुण स मुद्रैुष्मा छवसो न पाता महो मित्रो वरुण अयुरीदुर्भुक्षा मरीक्षनो देवजा तत्ते प्रवक्ष विदे वीरिया यन्निर्णिजारे घ्नसा प्रावृतस्य रातिङ्ग्रभीताम् मुखतो नयन्ति सुप्राः प्रयोमें यद्विश्व इन्द्रा भूष्णोः प्रियमत्येति पाथाः एषच्छागः पुरो अश्वेन वायिनाः पूष्णो भागो नीयते विश्वदेव्यः अभिप्रियम् यद्धविष्यमृतुषो दे एवयानन्त्रिर्मानुषाः पर्यश्वयन्ति अत्रापोष्णः प्रथमो भागयेति यज्ञम् देवेभ्यः प्रतिवेदयन्नजः होतार्युरामयाग्निधो ग्राहावग्राभ उत शंस्तासु विप्रः तेन यज्ञेन स्वरम् कृतेन स्विष्टेन वक्षणा आपृणध्वम् योपपुरस्का उदये योपवाहास्त्रिशालये अश्वयोपायतक्षति ये चार्वते पचनम् सम्भरन् युतो तेषामभिभूर्तिर्न इन्वतो उपप्रागात्सु मन्मेधायि मन्म देवानामाशा उपवीतपृष्ठः अन्वे एनम् विप्रादृशयो मदन्ति देवानाम् पुष्टे च क्रमासुबन्धुम् यद्वाजिलो दामसन्दानमर्वतो याशीर्षन्यानशनारज्ज्वरस्य यद्वाघास्य प्रभृतमास्ये एतृणम् सर्वाताते अपि देवेष्वस्तु यदश्वस्य क्रविशो मक्षिकाश यद्वा स्वरौ स्वधितौ रिक्तमस्ति सर्वाताते अपि देवेष्वस्तु यदो मध्यमुदरस्यापवाति य आमस्य क्रविशोः गन्धो अस्ति सुकृतादच्छमितारः कृण्वन्तु तमेधम् श्रुतपाकम् पचन्तु यत्ते गात्राः दग्निनाः पच्यमाः मा तद्भो यामाश्रन्मातृणेषु देवेभ्यस्तदृषद्भ्यो रातमस्तु ये वादिनम् परिपश्यन्ति भक्वञ् ईमाहुः सुरभिर्निर्हरेति ये चार्वतो मांसभिक्षामुपासत उतो तेषा आमभिगूर्तिर्न इन्वतो यन्निे क्षणम् मांस्वजन्या उका याया ऊष्मण्यापिधानाचरूणामङ्गाः सूनाः परिभूषन्त्यश्वम् विक्रमणम् निषदनम् विवर्तनम् यच्च पद्भीषपर्वतः यच्च पपौ यच्चघासिम् जघासर्वाता ते अपि देवेश्वस्तु मा त्वाग्निर्ध्वनजीद्धूमगन्धिर्मोखाभ्राजन्त्यभिविक्तजघ्रीः इष्टम् वेतमभिघोर्तम् वषट्कृतम् तम् देवासः प्रतिगृह्णन्त्यश्वम् यदश्वा आजवास उपसृणन्ति सि वासञ्याहिरण्यान्यस्मै सन्दानमर्वन्तम् पड्बीशम् प्रिया यत्ते सादे देमह सा शुकृतस्य पार्ष्ण्याः सृजे मता हविशो रेषु सर्ववाता ते ब्रह्मणा सूदयामि चतुस्त्रिंशद्वाजिनो देवबन्धोर्वङ्क्रीरश्वस्य स्पधितिः समेति अच्छिद्रागात्रापयुना कृणो तपरुष्परुरनुघृष्या विशस्ता एकस्पष्टुरश्वस्यापिशस्ताद्वायन्ताराभवतस्तथ ऋतुः या ते गात्राणामृदुधातापिण्डानाम् प्रजुहो यज्ञौ मा त्वातपत् प्रिय आत्मापिम् मा स्वन्वातिष्ठिपत्ते मा ते कृपि शस्तातिहाय छिद्रा गात्राण्यसि नामिथोकः न वा उ हरिः एते युञ्जापृषतेन भूतामुपास्थाद्वाजीधुरिरासभस्य सुगव्यो वाजी स्वश्वम् पुंसः पुत्राम् उदरिश्वापुषम् रयिम् अनागास्पन्नो अदितिः कृणोतु क्षत्रन्नो अश्वो वनताम् हविष्मान् यदक्रन्दः प्रथमम् जायमान उद्यन्तद्रादुत वा श्येनस्य पक्षाहरिणस्य बाहू उपस्तुत्यम् महि जातम् ते अर्वन् यमेन तन्त्रितमायुनगिन्द्र एनम् प्रथमो अध्यतिष्ठत् गन्धर्वो अस्य दश नाम गृभणात्सूरादश्वम्बसवो निरतष्ट असि यमो अस्यादित्यो अर्वसि त्रितो गुह्ये एनमुरतेन असि सोमे एन समजा आहुस्ते त्रीणि दिवि बन्धनानि त्रीणि तहुर्द्विबन्धनानि त्रीण्यप्सु त्रीण्यन्तः समुद्रे उतेवमेव वृणच्छन्त्यर्वन्यत्रा आत आहुः परमम् जनित्रम् इमा ते एवाजिन्नवमार्जनालीमा शफानाम् सलितुर्निधाना अत्रा आते भद्रारशना अपश्य मृतस्य या अभिरक्षन्ति गोपाः आत्मानन्ते मनसारादजानामवो दिवापतयन्तम् पतङ्गम् शिरोः अपश्यम् पथिभिः सुगेभिररेणुभिर्जेहमानम् पतत्रे अत्राते रूपमुत्तममपश्यन्दिगीषमाणमिष आपदे गोः यदा ते मर्तो अनुभोगमानडादिग्रसिष्ठ ओ ओ ओषधीरजीगः अनुत्वा रथो अनु अनुराता अनुरातासस्तव सख्यमीयननुदेवापमिरे वीर्यन्ते हिरण्यशृङ्गो यो अस्य पादामनो ज अवर इन्द्र आसीत् देवा इदस्य हविरमाजन्यो अर्वन्तम् प्रथमो अध्यतिष्ठत् येमान्ताः सस्यलिकमध्यमा सस्संशूरणासो दिव्यासो अत्याः हंसा इव श्रेणिशो तव शरीरम्बतम् वात इवध्रजीमान तव शृङ्गारिविष्ठिता पुरुत्रारण्येषु निर्भुराणाचरन्ति उपप्रागार्चसनम् अजः पुरो नीयतेनाभिरस्यानुपश्चात्कवयो यन्तिरेवाः उपप्रागात्परमै यत्सधस्थमर्वाङ्गच्छाः पितरम् मातरम् च अद्या देवाञ्जुष्टतमोहि गम्या अथाशास्ते दाशुषे अस्य वामस्य पलितस्य होतुस्तस्य भ्राता वध्यमो अस्त्यश्नाः तृतीयो भ्राता धृतपृष्ठो अस्यात्रा अपश्यम् विष्पतिम् सप्तपुत्रम् सप्त युञ्जन्ति रथमेकचक्रमेको वश्वो वहति सप्त नामा त्रिणाभिचक्रमजनमधर्म्यत्रेमामिश्वाभुवनाधितस्थुः इमम् रथमधिये सप्ततस्थुः सप्तचक्रम् सप्तवहन्ति स्वाहा सप्त स्वसारो अभिसन्नवन्ते यत्रगवान्निहिरा सप्त नाम ओददर्शप्रथमम् जायमानमस्थन्वन्तयनस्था विभक्ति भूम्या असुरसुरात्मास्वित्को विद्राम्बगात् प्रष्टुमेतत् पाकः पृच्छामि मनसा विलानम् देवाना मेनानि हितापदानि वत्से वष्कयेधिसप्तन्तोन्विदप्तिरे कवय ओ तवा ऊ अचिकित्वाञ्जिकितुषष्ठितत्र कवीन् पृच्छामि विद्मनेन विद्वान् भषळिमारजाम् शिजस्य रूपे किमपि स्विरेकम् इह ब्रवीतु य इमङ्गवे दास्य पावस्य निहितम् पदम्बेः श्रीर्ष्णः क्षीरम् गावो अस्य पौरिम् वसाना उदकम् मातापितरमृत आबभाजधीत्यग्रे मनसा सं हि जग्मे सा वे ए भत्सुर्गर्भरसा निविद्धा नमस्वन्त इदुपवाकमीयुः युक्ता मातासि इद्धुरिदक्षिणाया अतिष्ठद्गर्भो वृजनेष्वन्तः अमे इमेद्वत्सो अनुगामपश्यद्विश्वरूप्यम् त्रिषु योजनेषु तिस्रो मातृस्त्रीन्विभ्रदेक ऊर्ध्वस्वस्थौनेमवग्लापयन्ति मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वपितम् वाचमविश्वमिन्वाम्भर्तिचक्रम् परिद्यामृतस्या आपुत्रा अग्ने मिथुना सो अत्र सप्तशतानि विंशतिश्च तस्थुः पञ्चपादम् वितरन् द्वादशाकृतिम् दिव अर्धे एपुरीषिणम् अथे मे अन्य उपरे विचक्षणम् सप्त चक्रे शणर आहुरर्पितम् पञ्चाहारे चक्रे परिवर्तमाने तस्मिन्ना तस्थुर्भुवनानि तस्य नाक्षस्तप्यते भूरिभारः सनादेवनशीर्यते सनाभिः सनेमि चक्रमजरम् विवाहावृतमुत्तानायां दशयुक्ता वहन्ति सूर्यस्य चक्षूरजसैत्यामृतम् तस्मिन्नार्पिता भुवनादिविश्वाः सा कञ्जानाम् सप्तथमाहुरे कजम् षरिद्यमार्षयो देवया इति तेषामिष्टानि विहितानि कामशस्थात्रे रेदन्ते विकृतानि रूपशः स्त्रियः सतीमे पुंस आहुः पश्यवान्नपि चेतदन्तः कविर्यः पुत्रस्य इमाचिकेतयस्ताभिजानात् स पितुष्पिता सत् अवः परेण परदेणापरेण पदावत्संविभ्रती गौरुदस्तात् सा कद्रीजीवम् स्विरद्धम्बरगात्व स्वित्सूते नहि यूचे अन्तः अवः परेण पितरय्यो अस्यानुवेदपर एनावरेण कवीयमा नः क इह प्रवोचद्देवम् मनः कुतो अधिप्रजातम् ये अर्वाञ्चस्ताम् उपराः च आहुर्ये पराञ्चस्ताम् उ अर्वाच आहुः इन्द्रश्च याचक्रधुः सोमतानि धरा न युक्ता रजसो वहन्ति वासुपर्णा सयुधा सखा आयासमानम् वृक्षम् वरिणश्वजाते तयो ओरन्यः पिप्पलम् स्वाद्वत्यनश्नन्नन्यो अभिजा आकशीति यत्रा आसुपर्णा अमृतस्य भागमनिमेषम् विदधाःभिस्मरन्ति इहो विश्वस्य भुवनस्य गोपाः समाधिरः पाकमत्रापिवेश यस्मिन् वृक्षे मद्भदः सुपर्णानि विशन्ते सुमतेजाधिविश्वे तस्येदाहुः पिप्पलम् स्वाद्वग्रे तन्नोन्न सद्यः पितरन्न वेद यद्गाः यत्रे अधिगायत्रमाहि तन्त्रैष्टु वात्रैष्टु वा भन्निरदक्षर यद्वा जगज्जगत्याहितम् पदञ्य इत्तद्विदुस्ते अमृतत्वमानशुः गायत्रेण प्रतिमिमीते अर्कमर्केण सा मत्रैष्टुभेन वाकम् वाकेन वाकम् विपदा चतुष्पदाक्षरेण मिमते सप्तवाणीः जगता सिन्धुम् लिम् यस्तभायद्रथन्तरे सूर्यम् वर्यपश्यत् गायत्रस्य समिध स्तिस्र आहुस्ततो मह्ना प्ररिदिचे महित्वा उपह्वये सुदुधां धेनुमेताम् सुहस्तो गोधुगुतदोहदेनाम् श्रेष्ठम् सर्वम् सवितासामिषन्नो धेद्वो घर्मस्तदुषु प्रवोचम् हिम् कृण्वदैव सुपत्न्यैव सोऽनामर्थमिच्छन्ति मनसाभ्यागात् दुहामश्मिभ्याम् पयोः अग्नेयम् सावर्धताम् महते सौभगाय गौरमे मे तनुवत्संविशन्तम् मूर्धानम् हिङ्गकृणोन्मातवाहु सृक्वाणम् कर्ममभिवशानामि मातिमायुम्पयते पयोभिः अयम् अयं शिन्ते येन गौरभिवृतामि मातिमायुम्धसनापधिश्रिता सा चित्तिभिर्मिः चकारमर्त्यम् विद्युद्भवन्तीप्रतिपौरिमोहत तरच्छये तुरगा तु जीवनेलद्ध्रुवम् अध्यापस्यानाम् जीवो मृतस्य चरति स्वधाभिरमर्त्यो मर्त्येनासयोनिः अपश्यङ्गोपामनिपद्यमानमा च पराः च पथिभिश्चरन्तम् सविशो जीर्वसानावरीवर्ति भुवनेष्वन्तः यैहि चकारनसो अस्य वेदय ऐहि नदर्श हि रुगिन्नु तस्मात् स मातुर्यो नापरिवीतो अन्तर्भो प्रजानिरकृतिमाविवेश यौर्मे पिता जनितानाभिरत्र बन्धुर्मे मातापृथिवीमहीयम् उत्तानयोश्चम्भो ओर्यो निरन्तरत्राभिदादुहितुर्गर्भबाधात् पृच्छामि त्वा परमन्तम् पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः वृष्णो अश्वस्य रेतःपृच्छामि वाचः परमम् योम इयम् वेदिः परो अन्धः पृथिव्या अयजो भुवनस्य नाभिः सोमो वृष्णो अश्वस्य रेतो ब्रह्मायम् वाचः परमम् सप्तार्धगर्भाभुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि ते धेतिभिर्मनसा ते परिभुवः परिभवन्ति विश्वताः न विजानामि यदि वेदमस्मि निन्यः मनसाचरामि यदा मागन् प्रथमजादृतस्यादिद्वाचो अश्नुवे भागमस्याः पाङ्प्रायेति स्वधया गृभीतो मर्त्यो मर्त्येनासयोनिः तासन्दापि शोचीनाभियन्तान्या अन्यम् चिक्युर्न निचिक्युरन्यम् ऋचोऽक्षरे परमेव्यो मन्यस्मिन् देवाधिविश्वे निषेदुः यस्तन्न वेद हि मृचा करिष्यति य इत्तद्विदुस्त इमे समासते तूयवसाद्भगवती भूया अथो भगवन्तः स्याम अद्धितृणमघ्ने विश्वदानीम् विवशुद्धमुदकमाचरन्ति गौरीर्मिमायसलीलानि तत्क्षत्येकपदी द्विपदी सा चतुष्पदी अष्टापदी नवपदे बभूवुषीः सहस्रा अक्षरापरमे व्योमन् तस्याः समुद्राधिविक्षरन्ति तेन जीवन्ति प्रतिशश्च तस्रः तताः अक्षरत्यक्षरन्द्रद्विश्वमुपजीवति शतमयम् धूममाराधपश्यम् विशोगताः परदेनावरेण उक्षाणम् वृष्टिमपचन्त वीरास्तानि धर्माणि प्रथमान्याः सन् यः केशिन ऋतुथा विचक्षते संवत्सरे पतरेक एषा विश्वमेको अभिचष्टे सतीर्द्रादिरेकस्य ददृशेन रूपम् चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणायेव मनीषिणाः गुहात्रीविनिहितानेऽयन्ति तुलीयम् वाचो मनुष्या वदन्ति इन्द्रम् मित्रम् वरुणमग्निमा पुरथो दिव्यः स सुपर्णो गरुत्मान् एकम् सद्विप्रा बहुदा वदन्त्यग्नीयमम् मातरिश्वानमाहुः कृष्णन्य्यानम् हरयः सुपर्णा अपोपसानादिवमुत्पतन्ति त आवृत्रम् सदना घृतस्यादिद्घृतेन पृथिवीम् द्वादशप्रथयश्चक्रमे कन्त्रीणिनभ्या निक उतश्चिकेता तस्मिन् साकन्त्रिशता न शङ्करो यस्ते स्तनः शशयो यो मयोभूर्येन यज्ञेन यज्ञायजन्त देवास्तानि धर्माणि प्रथमान्याः सन् ते हनाकम् महिमानः सचन्तयत्र पूर्वे साध्याः देवाः समानमेतदुदकमुच्चैत्यवचाहभिः भूमिम् पर्जन्या जिन्वन्ति जीवम् जिन्वन्तयज्ञयाः दिव्यम् स्वपर्णम् वायसं वृहन्तमपाङ्गर्भम् दर्शतमोषधीराम् अभिमतो वृष्टिभिः तर्पयन्तंसरः स्वन्तमवसेजोहवीमि कया अशुभासवयसः स नीडाः समान्या मरुतः सम्मिविक्षुः कया आ मरीकुत एतास एतेऽर्चन् द्विजुष्वम् वृषणोऽवसूया कस्य ब्रह्माणिजिजुषुर्युवा नः को अध्वरे मरुताववर्ता श्येनानि वध्रजतो अन्तरिक्षेकेन महामनसारीरमाम कुतस्त्वमिन्द्रमाहिनः सन्मे को यासि सत्पते किम् त ब्रह्माणि मे मतयशं सुता स शुष्म आशासते प्रतिहर्यम् दुःखे मा हरिवहतस्तानो अच्छा यमन्तमेभिर्युजानाः स्वक्षत्रेभिः सन्वा अशुम्भमानाः अहोभिरेताम् उपयुज्महेन्विन्द्रस्वधामनुहिनोमभूथ वा अस्यावो मरुतः स्वधासीद्यन्मामेकम् समधत्ता हिरत्ये अहम् ह्यो उगुरस्तविश्रुविश्वान्विश्वस्य शत्रोरणमम् वधस्तैः भूरिचगर्थयुज्येऽभिरस्ने समानेवृषभुंस्येऽभिः भूरिः कृणवा वाचनिष्ठेन्द्रक्रता मरुतो यद्वशामा वधीन् वृत्रम् मरुतैन्द्रियेण स्वेन भामेन तशोबभूवान अहमेतामनवे विश्वश्चन्द्रा सुगा अपश्च करवज्रबाहुः अनुत्तमा ते मघवन्नकिर्नु नत्वावाङ्स्ति देवताविदानः न जायमानो नश ते न जातो यानि करिष्या कृणहि एकस्य चिन्मे विद्ध्वा अस्त्वो यो यानुदृश्वान्कृणमयी मनीषा अहम् स्यू उग्रो मरुतो विदानो यानित्यममिन्द्र इदीश अमन्दन्मा मरुतः सोमो अत्र यन्मे नरश्रुत्यम् ब्रह्मचक्रा इन्द्राय विष्णे सुमखाय मह्यम् सख्ये सखायस्तन्वे तनूभिः एवेदेते प्रतिमा रोचमानानेतिर एषो दधानाः सञ्चक्ष्यामरुतश्चन्द्रवर्णाच्छान्तमेच्छदयाथा च कोऽन्मत्र मरुतो मा महे मयात न सखीङ्ग्रच्छा सखायः मन्मानि चित्रा अपि वातयन्त एषाम्भोतनभेदामलतानाम् आयद्दुवस्याद्दुवसेनकारुरस्माञ्चक्रे मान्यस्य मेधा ओषु वर्तमरुतो विप्रमच्छेमा ब्रह्माणि चलिता वो अर्चत् एष वस्तो मामरुत इयम् गीर्मान्दार्यस्य मान्यस्य कारोः एषा याः श्रेष्ठतन्वेः पजाम् इति द्वितीयाष्टके तृतीयोऽध्यायः